मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं तर्टिफैव् शुकोपाख्यानं श्रीगणेशाय नमः मुद्गल उवाच व्यासस्यापि सुतो जज्ञे शुकः साक्षाच्चिव स्वयं योगिनां स शिरोमणिः शुको गर्भाद्विनिसृत्य सङ्गभीत्या पलायत सङ्गे न ज्ञानभङ्गो वै जायते विषयात्मना तं गच्छन्दं समालोक्यव्यासो वैधविदो भवद बोधयन् हेतुभिर्वाक्यैर्नानाक्रममयैः सुदम् तिष्ट तिष्ठतिष्टमहायोगिन् शृणु मे परमं वचः प्रथमं ब्रह्मचर्यं च तदो गार्हस्त्यमं तदो सा तदोवनाश्रमः प्रोक्तस्ततः सन्न्यास आदराद क्रमेण सेविधायेते तदा योग सुसिध्यति अन्यथा सहसा कृत्वा योगभ्रष्टो नरो भवेद् अथवा भ्रष्टभावेन नारकीधर्मनाशदः अदो मनोजयार्थं त्वं क्रममार्गं समाचर अन्ते योगीन्द्रसंसेव्यो भविष्यसि न संशयः सहसा माचरत्वं वै त्यागं परमदुस्तरं मनश्चञ्चलभावेन पदिष्यसि न संशयः इत्याद्याैर्विविधार्वाक्याय सुदोव्यासेन बोधितः सङ्गस्यैव भयाद्योगी न बुबोध शुको मुने व्यासोपि भावि च ज्ञात्वा ययौ स्वस्याश्रमम् स्वयम् गणेशमनसाध्यात्वा संस्थितश्चिन्तयान्विदः एतस्मिन्नन्तरे तत्र ब्रह्म स्वयमुपागतः तम् प्रणम्य शुकस्यापि वृत्तान्तमवदन्मुनिः तदस्तं प्रत्युवाचाधब्रह्मा चिन्तां तु मा कुरु शुको न भविदा शम्भुर्भ्रष्टो वै नात्र संशयः एवमाश्वास्य तं व्यासं तस्य पूजां प्रगृह्य सः ययस्वभवनं ब्रह्मा व्यासो वै हर्षितो भवत शुकः स नर्मदातीरे संस्थितो योगसेवया सर्वत्र ब्रह्मभावेनाचिन्तयद्ब्रह्मशाश्वतम् सम्प्रज्ञादोष्टधातेन साधितो वेदमार्गदः असम्प्रज्ञातयोगेषु संस्थितो योगिसत्तमः सुकेश्वरस्तत्र साक्षाच्चङ्करस्तिष्ठति प्रभुः शिवेन हृदि संस्थेन बोधितो बादरायणिः गुरुनाथेन हीनोऽयं शुको योगं समभ्यसद योगभूमिक्रमेणैव साधयद्योगमुत्तमम् स्वद उद्धानकं ब्रह्म साधयित्वा विधानतः प्राप्तं परद उद्धानं तेन साङ्ख्यं महात्मना तत्र ब्रह्मणि संसक्तो योगाभेदेन केवले बभ्रामपृथिवीं सर्वां विदेहोऽसौ महामुनिः ब्रह्म निराधारं निराधारम् दृष्ट्वा संशयवानभूत् तदर्थम् जनकं सोऽपि हर्षसमन्वितं जनकेन तथा साङ्ख्यम् विदेहम् कथितम् परम् ततः संशयहीनश्च जादो वैयास किप्रभुः साङ्ख्ये बोधस्य नाशस्यात् तद्दृष्ट्वा विस्मितो मुनिः विचारमकरो चित्ते योगभावेन भावितः बोधेनोद्धानकं जन्तोर्जायते नात्रसंशयः संशयः बोधहीनेन योगेनोद्धानं नास्य भवेत्कदा ब्रह्मयोगमयम् प्रोक्तम् तत्रोद्धानविहीनता उत्थानम् विद्यते नैव प्रवर्तते सांख्यं ब्रह्मविदेहत्वान्मदं चोपाधिवर्जितम् न मुख्यं शान्तिदं प्रोक्तं योगीन्द्रैर्योगचिन्तकैः व्यासेन वेदशाखाश्च कृता भिन्ना महात्मना पुराणानि विभिन्नानि कृतानि समवेदिना अहं तं शरणं यामि तादं शान्त्यर्थमादराद स एव सर्ववित् साक्षाच्छान्दिदा भविष्यति विचार्य मदिमानेवं सुको हर्षसमन्वितः आगत्य तस्य तं न नाम कृताञ्जलिः तत्रव्यासोऽपि योगिभ्य प्रावदद्योगमुत्तमं तं श्रुत्वा हर्षितो भूत्वा शुको वच उवाच तम् स्वामिन् शृणु मदीयं वै प्रश्नं योगप्रसिद्धये शान्तियोगस्य दादाखकीदृशो योग उत्तमः वद मां करुणासिन्धो योगिभ्यो योगदायक योगीन्द्रस्त्वं न सन्देहो भ्रान्त्याकं भ्रमिदो भवं शुकस्य वचनं श्रुत्वा तं व्यास प्रत्युवाचः शृणुष्व त्वमहाभाग योगं शान्तिप्रदायकं गणेशशान्तिरूपश्च योगशान्तिप्रदायकः तं भजस्वमहायोगिन् तेन शान्तो भविष्यसि ब्रह्मणाम् बोधितोऽहं तं भजामि गणनायकम् तेन सर्वज्ञतां यादो योगीन्द्रैः सेवितो भवं गणो धातुःसमूहे च कथितो नात्र संशयः बाह्यान्तरादिसंयोगे समूहो भवति प्रभो ब्रह्मरूपाः समूहाश्च तेषां स्वामी गणेश्वरः संयोगा योगयोगेन प्राप्यते योगिभिः परः एवमुक्त्वा गणेशस्य वेदपादस्तवं ददौ रचितं विष्णुना पूर्वम् शान्तियोगप्रदायकं येन विष्णुः सुशान्तो भूदिहलोके सुखात्मकः जाधपालकभावेन भगवन्नामधारकः प्रगृह्य साधयामास शुकस्थं परमाद्भुतं गणपत्यो बभूवाध योगिवन्द्यो महाद्युदिः नित्यं गणेशमाहात्म्यं वेदपादस्तवं शुकः जपति स्नेहभावेन दिवानक्रमखण्डितम् येतच्छुकस्य माहात्म्यं कथितं ते प्रजापदे पठदे शृण्वदे सर्वसुखदं प्रभवेत्परम् ॐ तत्सदिः श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते शुकोपाख्यानं नाम पञ्चत्रिंशोऽध्यायः ओम्